श्रीमद्भागवत् महापुराणं दशमस्कन्ध षड्चत्वारिंशोऽध्यायः प्रलम्बोधेन कोरिष्ट तृणावर्तोऽपकादयः दैत्यासुरासुरजितो हतायेनैहलीलया शिशुकुवाच इति संस्मृत्य संस्मृत्या नन्दकृष्णानुरक्तधी अत्युत्कण्ठो भवतोष्णिम् प्रेम प्रसर्वलः यशोदावर्णमानानि पुत्रस्य चरितानि च श्रीमन्त्यशून्यवास्त्राक्षे स्नेहस्तूष्णुतपयोधराम् तयोरित्थम् भगवते कृष्णे नन्दयसोदयोः वीक्षानुरागम् परमम् नन्दमाहूर्धवो मुदा उद्धौ उवाच युवां साध्यतमौ नूनं देहिनामीहमानद नारायणेऽखिलगुरौ यत्कृता मतुरीदृशे एतौ हि विश्वस्य च बीजयोनि रामो मुकुन्द पुरुषप्रधानम् अन्वीयभूते सुविलक्षणस्य ज्ञानस्य चेशात् इमौ पुराणौ यस्मिञ्जनप्राणवियोगकाले क्षणम् समावेशमनो विशुद्धम् निहृत्य कर्मासे मासु याति पराम् गतिम् ब्रह्ममयोर्कवर्णः तस्मिन् भवन्तावखिलात्महेतौ नारायणे कारणमर्चभूतौ भावम् विधत्ताम् नितराम् महात्मन् किम् वावशिष्टम् युवयोसत्यम् आगमिष्यत्य दीर्घेण कालेन व्रजमच्चितः विधास्यते पित्रोर्भगवान् सात्वताम् पतिः धत्वा कन्सम् रङ्गमध्ये प्रतीपम् सर्वम् पा सात्वताम् यदा हव समागत्य कृष्ण सत्यम् करोति तत् मा खिद्यतम् महाभागौ दक्षथ नन्तर्हृदेशभूतानाम् आस्ते ज्योतिरिवैधं दसि न यस्यासि प्रियः कश्चिन्नाप्रियो नोत्तमो नासमो नापि समानस्यासमोऽपि वा न माता न पिता न भार्या न ना सुतादयः नात्मीयो न ना पश्चापि न देहो जन्म एव न चा कर्म वोकेशु क्रीडाथ सोपि साधूना पैरि कलते तत्व नयस्तम भजते निर्गुण गुणा क्रीड नती गुण सृज्त वह यहा्रमरिका दृष्टिया भ्राम्यतीव महते चित्ते कर्त तत्मा कर्ते वह धिया यो रेव नैवायम् आत्मजो भगवान् हरि सर्वेषामात्मजो ह्यात्मा पिता माता चईश्वरः दृष्टं श्रुतं भूतभवद्भविष्यतः स्थासु नुश्चरिष्णुर्महदल्पकं च विना चिताद्वस्तुतरां न वाच्यं स सर्वं परमार्थभूतः एवं निशासां ध्रुवतोर्व्यतीतानन्दस्य कृष्णानुचरस्य राजन् गोप्य समुत्थाय निरूप्यदीपान् वासुन् समर्भ्यर्चदधिन्यमन्थन तादीपदीप्तैर्मणिभिर्विरेजो उद्गायते नामरविन्दलोचनम् रजाङ्गनानां दिवम् दिवमस्पृसन्धनिः दर्मन्थनशब्दमिश्रितो निरस्यते येन साममङ्गलम् भगवत्युदिते सूर्येण दद्वारि बृजकष दृष्ट्वार्थम् सातकौम्भम् कस्याय मिश्या ब्रुवन् अक्रूर आगतः देननीतो मधुपुरीं कृष्ण कमललोचनः किं साधयिष्यन्त्यस्माभिर्भर्तु प्रेतस्य निष्कृतिम् इति स्त्रीणां वदन्तीणाम् उद्धवो ते श्रीमद्भागुते महापुराणे परं हंसां शयितायां दसंस्कन्दे पूर्वार्दे नन्दशोकापनैनम्नां षड्चत्वारिंशोऽध्यायः